नारदपुराणं पूर्वार्धम् अध्ययम् हण्ड्रेड् अण्ड् एय्टीन् सनातन उवाच अथ विप्रेन्द्र नवम्यास्ते प्रदानि यानि कृत्वा नरालोके लभन् देवाञ्चिदं फलं चैत्रस्य शुक्लपक्षे दुः श्रीराम नवमी व्रतं तत्रोपवासं विधिवच्चक्रो भक्तसमाचरेद अशक्तश्चैकभक्तं वै मध्याह्नोत्सवतः परं विप्रान् सम्भोज्यमिष्टान्नै रामप्रीतिसुमाचरेद गोभूतिलहरिरण्याद्यैर्वस्तालङ्कार वस्त्रालङ्करणेस्तथा य वय कुरुदे भक्त्या श्रीरामनवमी व्रतम् विधूयजः पपानि व्रजेद्विष्णु परं पदम् उक्तम् आदुर्व्रतं चात्र भैरवेण समन्विताः स्रगन्धवस्रनमहैवेद्यैश्चतुःषष्ठिस्तु योगिनीः अत्रैव भद्रकाले तु योगिनीनां महाबला ब्राह्मणस्रष्टः सर्वासमाधिपत्येऽभिषेचिता तस्मात् तम् भुजये चात्र स्वपवासो जितेन्द्रियः राधे नवम्यां दलयोश्चण्डिकां यत्तु भूजयेदविधिना सभिमानेन देवतैः सह मोददे ज्येष्ठशुक्लनवम्यां तु स्वोपवासो नरोत्तमः उमां सम्भुज्य विधिवत् कुमारीर्भोजये द्विजान् स्वभक्त्या दक्षिणं दत्त्वा शाल्यन्नं पयः साश्नुयात् पुमाव्रतमिदं विप्र यः कुर्याद् विधिवन्नरः स भुक्ते ह वरन् भोगानन्दे स्वर्गगतिं लभेद आषाढे मासि विप्रेन्द्र यकुर्यात् पक्षयोर्द्विज नक्तं चैन्द्रिं समभ्यर्च्येदैर्यावदगदांसिदां स भवेद्वैव स भवेद्वैव लोके दुभोग भारदेवया नगाः श्रावणे मासि विप्रेन्द्रय कुर्यान्नक्तभोजनं पक्षजरूपवासं वा कौमारीं चण्डिकां यजेद् येवं पापहरां गन्धैः पुष्पैर्धूपैश्च दीपिकैः नैवेद्यैर्विविधैश्चैव कुमारीभोजनैस्तथा एवं यः कुरुदे भक्त्या कौमारीव्रतमुत्तमं स्वाभिमानेन गच्छेद्वै देवी लोकं सनातनं भाद्रेद नवमी शुक्ला नन्दाह्वा परिकीर्तिदा तस्यां विधिव चोपचारकैः सोऽश्वमेधबलं लब्ध्वा विष्णुलोके मही यदे अश्विने शुक्लनवमी महापूर्वा प्रकीर्तिता अपराग्नेशमीपूजा कार्यास्याम् प्राग्विषिद्विज तदो निशायाम् प्राज्ञा मे कङ्गम् धनुरिषून् गदाम् शूलम् शक्तिम् च परशुम् धुरीकाम् चर्मखेटकम् छत्रम् ध्वजम् गजम् चाश्व तुलाम् दण्डं पाषं चक्रशङ्खौ गन्धाद्यैरुपचारकैः सम्पूज्यमखशं तत्र भद्रकाल्यैः समालभेद एवं बलिं भुक्त्वा पावन्नमेव ज द्विजेभ्यो दक्षिणां दत्वा व्रतं तत्र समापयेद् एवं यत् पूजयेद्दुर्गां वृणां दुर्गदिनाशिनीम् इह भुक्त्वा वरान् भोगानन्दे स्वर्गतिमाप्नुयाद कार्तिके शुक्लनवमी या क्षया सा प्रकीर्तिता तस्यामश्वले वैतर्पणं सम्यगाजरेद दे। देवानां च ऋषीणां च पितॄणां चाभि नारद स्वशाखोक्तयस्तथा मन्ध्रै सूर्यायार्क्यम् तदोऽर्पयेत् ततो द्विजान् भोजयित्वा मिष्ठान्ने न मुनीश्वरा स्वयं भुक्त्वा जीसरे द्विजेभ्यो दत्तदक्षिणः एवं यकुरुते भक्त्या जपदानं द्विजार्जनं होमं च सर्वमक्षयं भवेदि दिवि देवयः मार्गे द्विशुक्लनवमी नन्दिनी परिकीर्तिता तस्यामुपोषिदो यस्तु जगदम्बां प्रपूजयेत् गन्धाध्यैस्तौश्वमेधस्य फलभाङ्नात्रसंशयः पौषे शुक्लनवम्यां दुमहामायां प्रपूजयेत् येकभक्तपरो ये विप्रवाजपेयफलात्तये ये माघमासे तु वा शुक्ला नवमी लोकपूजिता महानन्दे दिशा तस्यां स्नानं तदा दानं जपो सर्वमक्षयतां यादि नात्र कार्याविचारण फाल्गुनामलभक्षस्य नवमीयाद्विजोत्तम आनन्दासमः पुण्या सर्वपाप हरा स्मृदा सोप वासोऽर्चये तत्र यस्त्वानन्तां द्विजोत्तम स लभेद्वाञ्छितान् कामान् सत्यं सत्यं मयोदितम् इति श्रीमृगन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थभागे द्वादशमासस्थितनवमी व्रतकथनं नामष्टादशाधिकशतमोऽध्यायः ओम्